श्रीमद्भागवत्महापुराणन्दसंस्कन्ध अथ पञ्चमोऽध्यायः गोकुल मे भगवान् काजन्महोत्सवः शेषोकुवाच नन्दस्त्वामात्मजत्पन्ने जाताह्लादो महामनाः आहूय विप्रान् वेदज्ञानस्नात सुतिरलङ्कृतः वाचेत्त्वा स्वस्तेनं जातकर्मात्मजस्य वै कार्यामासविधिवत् पितृदेवार्चनं तथा धेनूनां नियुते प्रादाद्विप्रेभ्य समलङ्कृते तिलाद्रीन् सप्तरौ रत्नौभसातकौम्भाम्बरावृतान् कालेन स्नानशौचाभ्यां संस्कारैस्तपसे ज्यया सध्यन्तिदानैः सन्तुष्ट्या द्रावण्यात्मात्मविद्ययां सौमङ्गल्यगिरो विप्रासुतमागतमन्दिनः गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः व्रजसमिष्टसंसिद्धसंसिक्तद्वाराजिर्गृहान्तरः चित्रध्वज पताकाश्रं चैलपल्लवतोरणैः गावो वृषा वश्चतरां हरिद्रातैलरूषिताः विचित्रधातुर्बहस्रं लग्नकाञ्चनमालिनः न हार्हवस्त्राभरणकञ्चकोष्णीशभूषिताः गोपासमाय यूराजन्नानोपायनपालयः गोप्यश्चाकर्णमुदितायशोदाया सुतोद्भवम् आत्मानं भूषयाश्चक्रुर्वस्त्राकल्पाञ्जनादिभिः नवकुङ्कुम किञ्जल्कमुखपङ्कजभूतयः दर्भिः त्वरितं जग्मो पृथुश्रोण्यचलन्कुजाः गोप्य सुमेष्टमणिकुन्दननिष्ककण्ठ चित्राम्बरापतिशिखा चितमाल्यवर्षाः नन्दालयं शबलया व्रजतिर्विरेजो द्यालोलकुण्डलपयोधहारशोभा ता आशेषप्रजानाचिरं पाहिति बालके हरिद्रा हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्यो जनमोज्जगुः अवाद्यन्तविचित्राणि वाचित्राणि महोत्सवे कृष्णे विश्वेश्वरे नन्ते नन्दस्य व्रजमागते गोपा परस्परं सृष्टा दधि क्षीरकृताम्बुभि आसिञ्चन्तो विलिम्पन्तो नवनीतये स चेक्षुपुः नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनं सुतमागतवन्दि वन्दितभ्यो तेन्द्ये विद्योपजीविनः तैस्तैः कामैरदीनात्मा यथोचितमपूजयत् विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च रोहिणी च महाभागानन्दगोपाभिनन्दितां व्यतिरन्दिव्यवाससृगकण्ठम्भम्भरणभूषितां तत आरभ्य नन्दस्य व्रज सर्वस्रमिद्धिमान् अरे हरे निवासात्मगुणैरमाक्रीडम् अभुनृप गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः नन्दकंसस्य वार्षिक्यं करं दातुं कुरुद्वह वसुदेव उपसृत्य भातरं नन्दमागतं ज्ञात्वा दत्तकरं राज्ञेयौ तदवमोचनम् तं दृष्ट्वा सहस्रोत्थाय देहप्राणम् इवागतं प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविफलः पूजितसुखमासीन पृष्टवानामयमादितः दसक्तधि स्वात्मजयोरितमाह विशां पते दृष्ट्या भ्रात पवयस इदानीम् अप्रजस्यते प्रजासायान्वित्तस्य प्रजायत सम्पद्यत दृष्टा संसारचक्रेऽस्मिन् वर्तमानपुनर्भवः उपलब्धो भवानद्य दुर्लभं प्रियदर्शनं नैकत्र प्रियसंवास सुहृतां चित्रकर्मणाम् ओघेन युष्यमानानां प्लवानां स्रोतसो यथा कच्चिन्पसव्यं निरुक्तम् भूर्यम्भूतृणवीरुधम् बृहद्मनं तदधुना यत्रास्ते त्वं सुहृद्भितः भ्रातर्मं सुतः कञ्चिन्मात्रा सह भवद्रजे तातम् भवन्तम् मन्वानो भवद्भ्यामुपलालितः पुंसस्त्रिवर्गो विहितः सुृहितोनुभावितः न तेषु क्लिश्यमानेषु नन्दुवाच अहो ते देवके पुत्रा कंसेन बहवो देका एका वसिष्ठा वरजा कन्या सापि दिवं गता नूनं सदृष्टनिष्ठोऽयम् अदिष्टपरमो जनः अदिष्टमात्मनस्तत्त्वं यो वेद न समुह्यते वसदे उवाच करो वै जत्तो दत्तो राज्ञे दृष्टा वह नेहस्थेहं बहुतिथं सन्त्युत्पातास्ते गोकुले श्रीशु उवाच इति नन्दादयो गोपा प्रोक्तास्ते शौर्यनाययोः अनभिरनद्युद्युक्तये तमनुज्ञाप्य गोकुलं ते श्रीमद्भागवते महापुराणे पारभंसां सहितायां दसंस्कन्धे पर्वार्थे नन्दवसुदेव सङ्गमो नाम पञ्चमोऽध्यायः